अथ त्रिचत्वारिंशोऽध्यायः वैशम्पायनुवाच ददर्श स पुरीम् रम्याम् सिद्धचारणसेविताम् सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् तत्र सौगन्धिकानाम् च पुष्पाणाम् पुण्यगन्धिनाम् उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना नन्दनम् चवनम् दिव्यमप्सरोगणसेवितम् ददर्श दिव्यकुसुमैराह्वयद्भिरिवद्रुमैः नातप्तपसा शक्यो द्रष्टुम् नानाहिताग्निना सलोकः नापि ना युद्धे पराङ्मुखैः नायज्वभिर्नावृतिकैर्न ना वेदश्रुतिवर्जितैः नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः नापि यज्ञः नैः क्षुद्रैर्द्रष्टुम् शक्यः कथञ्चन पानपैर्गुरुतल्पैश्च मांसादैर्वादुरात्मभिः स तद्दिव्यम् वनम् पश्यन् दिव्यगीतनिनादितम् प्रविवेश महाबाहुश्शक्रस्य दयिताम् पुरीम् तत्र देवविमानानि कामगानि सहस्रशः संस्थितान्यभियातानि ददर्शायुत शत्स्तदा संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः पुष्पगन्धवः पुण्यैर्वायुभिश्चानुवीजितः ततो देवाः स गन्धर्वाः हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् आशीर्वादैस्तूयमानो दिव्यवादित्र निःस्वनैः प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्